विप्रयोगेन न तु त्यागीतोषदर्शी समागमे विरागम् भजते जन्तुर्निर्वैरो निरवग्रहः तस्मात् स्नेहम् न लिप्सेत मित्रेभ्योऽ धन संचयात, स्वशरीर समुत्थञ्च ज्ञानेन विनिवर्तयेत् ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु न सज्जते स्नेहः पद्मपत्रेष्विबोदकम् रागाभिभूतः पुरुषः कामेन परितृष्यते इच्छा संजायते तस्या ततस्तृष्णा विवर्धते तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता अधर्म बहुला चैव घोरा पापानुबन्धिनी यादुस्त्यजादुर्मतिभिर्या न जीर्यति जीर्यतः अनाद्यन्ता तु कृष्णा अन्तर्देह विनाशयति भूतानि अयोनिज इवानलः यथैधस्व समुद्धेन वस्निना नाशमिच्छति तथा कृतात्मा लोभेन सहजेन विनश्यति राजतस्सलिलादग्ने श्रोरतस्व जनादपि भयमर्थवतान् यथा ह्यामिषमाकाशे पक्षिभिः भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र विक्तवान्